अथ सप्तदशाधिकद्विशततमोऽध्यायः वैशम्पायनवाच सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः मुद्रे पश्चिमे यानि तीर्थान्यायतनानि च तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् प्रभासदेशम् सम्प्राप्तम् बिभत्सुमपराजितम् सुपुण्यम् रमणीयम् च शुश्रावमधुसूदनः ततोऽभ्यगच्छत् कौन्तेयं सखायं तत्र माधवः ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने आस्तां प्रियसखायौ तौ नरनारायणावृषी ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत किमर्थं पाण्डवैतानि तीर्थान्यनुचरस्युता ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा श्रुत्व वाच वार्ष्णेय एवमेतदिति प्रभु तौ विहृत्य यथा कामम् प्रभासे कृष्णपाण्डवो महीधरम् रैवतकम् वासायैवाभिजग्मतुः पूर्वमेव तु कृष्णस्य वचनात्तम् महीधरम् पुरुषामण्डयाञ्चक्रुरुपजहृश्च भोजनम् प्रतिगृह्यार्जुनः सर्वम् उपभुज्य च पाण्डवः सहैव वासुदेवेन दृष्टवान् नटनर्तकान् अभ्यनुज्ञायतान् सर्वान् अर्चयित्वा च पाण्डवः सत्कृतं शयनं दिव्यम् अभ्यगच्छन् महामतिः ततस्तत्र महाबाहुः शयानः शयने शुभे तीर्थानाम् पल्वलानाम् च पर्वतानाम् च दर्शनम् आपगानाम् वनाम् च कथयामास सत्त्वते एवम् स कथयन्नेव जया कौन्तेयोऽपि हृतस्तस्मिन् शयने स्वर्गसन्निभे मधुरेणैव गीतेन वीणाशब्देन चैवह। प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा स कृत्वा अवश्यकार्याणि वार्ष्णेयेनाभिनन्दितः रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् अलङ्कृता द्वारका तु बभूव जनमे जय पूजार्थम् अपि